नमस्कारः नमो नमः नमो नमः नमो नमः आरम्भं कुर्मः बगी। राधा भगिनी भवती वदति प्रार्थनया आरम्भं कुर्मः आं भगिनि ॐ सहना भवतु सहनं भवतु सः वीर्यं करवावहे तेजस्विनावधितमस्तु माविद्विषावहै शान्ति शान्ति शान्तिः अस्तु आ, अस्तु वीणा भगिनी अधुना अद्यदिन यथा अहं गणे प्रेषितवती गीताजयन्ती सप्ताह अषंगाने अस्क अन विषय अस् धा विषय कस अस् अ जानती वे अस धा अर्थ क आम् आम, आम तत्र अस्ति इति रूपमस्ति लट्लकारे एवं खलु लट्लकार प्रथमपुरुषे एकवचनान्तरूपम् अस्ति अस्ति पश्यन्तु वस्तुतः तत्र धातु त्रयं त्रयः एकं वा शेर् स्क्रीन् करोमि त्रयः धातवः सन्ति तत्र अस् नाम्ना धातुत्रयं कथमस्ति पश्यामः अत्र अस् इति हा दृश्यते स्क्रीन् दृश्यते न बहि न दृश्यते एकवारम् अस्तु एकवारम् अधुना दृश्यते आम् भगिनी अधुना रमा भगिनी पठतु कृपया अस्य धातु तत्र धातुत्रयं प्रथमतः तु अस् पठति वा हां. द्वितीयम् अधार, तत्र न तु त्रयं परन्तु अस्माकं यत् अस्ति रूपं वयं सर्वे जानीमः अस्ति इति रूपं प्रथमपुरुष एकवचनान्तं तत् अस्ति अस् अदादिगणतः यथा भगिनी उक्तवती तत् टु बि ओर् टु एक्सिस्ट् इति भुवि इति अर्थः तस्य अधुना अस् धातोः अदादिगणतः अस्धातोः कोऽपि स्मरति वा लट् लकाररूपाणि सर्वाणि प्रथमपुरुष मध्यमपुरुष उत्तमपुरुषरूपाणि कोऽपि वदति वा जयन्ति भगिनी भवती वदति वा अति अतः अति अतः सन्ति अस्ति अस्तः अस्ति स्तः सन्ति असि स्त स्तः स्त अस्मि आवः आमः अस्मि आमः बेनि स्मः वः स्मः पुनः एकवारं वदति वा कृपया आम् अस्ति स्तः सन्ति त अस्मि स्वः स्मः अधुना इतोपि हा मौखिकी दृष्ट्या एव तत्र कर्तुपदं पूरयति कर्तुपदं पूरयित्वा वदति वा सः अस्ति एव वदतु, हा रामः अस्ति रामौ सः रामाः सन्ति त्वम् असी, यूवं सारी युवां स्तः यूयं स्त अयम् अस्मि आवः आवाम् आवां स्वः वयं स्मः एवं रूपाणि सन्ति अद्यतने अस्माकं विषयः अस्ति अस् धातोः भूतकालरूपाणि भूतकालरूपाणि अस् धातोः एव पश्यन्तु अत्र तालिका अस्ति यथा कर्तरिलट् इति एतादृशानि रूपाणि कर्तरी लङ् तत्र कर्तरि इत्युक्ते किं तत् कर्तरिप्रयोगे लङ् लकारे परस्मैपदी धातो कथं भवति रूपाणि तद्दत्तमस्ति वीणा भगिनी वक्तुं न शक्यते राधा भगिनी भवती एव पठति वा एकवारं लट्लकार अपि पठतु लङ्लकार अपि पठतु आं भगिनी कर्तरि लट्लकार लक परस्मैपदम् अस्ति स्तः सन्ति असि स्तः स्त अस्ति स्वः स्मः कर्तरि अस्तु न अस्तु अस्तु कर्ति कर्तरि लङ् अपि पठतु कर्तरि लङ् लकार परस्मैपदम् आसी, आसीद, आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म कर्तु कर्तुपदानि पूरयतु वाक्यानि रचयतु किं भगिनि हा अधुना पश्यतु तत् ता, तालिका अस्ति तत्र योजना योजना कीदृशी प्रथमता तु प्रथमपुरुष एकवचन प्रथमपुरुष बहुवचन प्रथमपुरुषद्विवचन प्रथमपुरुष बहुवचन अनन्तरमस्ति मध्यमपुरुष एकवचन मध्यमपुरुष द्विवचन मध्यमपुरुष बहुवचन अनन्तरमस्ति उत्तमपुरुष एकवचन द्विवचनं बहुवचनम् यथा जयन्ती भगिनी अधुना उक्तवती तत् रामः अस्ति ह तथा बालकः अस्ति बालकौ स्तः बालकाः सन्ति त्वम् असि त्वं युवां युयम् अस्मि अहम् आवां वयम् एव एता एतानि सर्वाणि कानि कर्तुपदानि सन्ति हा यदा अस्मि इति वदामः चेत् तदा कर्ता कः भवितुमर्हति अहमस्मि अस्ति इति वदामः चेत् कर्ता कः भव भवितुमर्हति सह, सा पुरुषः महिला वा अन्यकोपि परन्तु तत् प्रथमपुरुष एकवचनान्त तत्र एव तादृशकर्तुपदं तत्र भवेत् असि इति वदामः चेत् कर्तुपदं किं त्वम् असि त्वं युवां यूयं युवं स्थः त्वं युवां यूयं यूयं स्थ एवं सर्वं मनसि विचिन्त्य तत् सर्वाणि वाक्यानि प्रथमतः लट् लकारस्य कृते वदतु अनन्तरं लङ् लकारस्य कृते अपि वदतु रचना तादृशी एव प्रथमा पङ्क्तिः तत्र प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं मध्यमपुरुष एकवचनं मध्यमपुरुष द्विवचनं मध्यमपुरुष बहुवचन अनन्तरम् अन्तिमं भवति उत्तमपुरुष एकवचनं द्विवचनं बहुवचनं आं भगिनि सः अस्ति तौ स्तः ते सन्ति त्वाम् असि युवां स्थः यूयं स्त अहम् अस्मि आवां स्वः वयं स्मः उत्तमं लङ्लकारस्य कृते अपि वदतु सः आसीत् अथवा mm. सः uh, तौ आस्ताम् mm -hmm. ते आसन त्वम् आसीः युवाम् आस्तं mm -hmm. यूयम् आस्त अहम् आसम् आवाम् आस्व mm -hmm. वयम् आस्म उत्तम, उत्तमम् उत्तमं योग्यम् एवम् अधुना mm -hmm. फ़ोर् मौखिकी फो प्रेक्टिस् रमा भगिनी रमा भगिनी भवती एकं करोतु अस्ति वा रमा भगिनी अस्ति खलु अस्तु अस्तु हा हा कथं वदनीयं पश्यन्तु सः अस्ति सः आसीत् सः आसीद् तत्र पश्यन्तु लङ् लकारः प्रथमपुरुष एकवचनम् आसीत् अपि भवितुमर्हति आसीद् अपि भवितुमर्हति किमर्थं तत्र जलाम जशोन्ते इत्युक्ते तकार वा दकार विकल्पेन आगच्छति तकार इति प्रथमवर्णः दकार इति तृतीयवर्णः तकार अपि भवेत् दकार इति भवेत् यथा वयं वदामः श्रीमत् श्रीमद् तत् तथैव हा अस्तु त अधुना रमा भगिनी भवती किं करोतु सः अस्ति सः आसीत् सः आसीत् आसी। तौ स्तः तौ आस्ताम् हा प्रथमं वाक्यं लट्लकारे द्वितीयं वाक्यं लङ्लकारे एवं वदतु सः अस्ति तौ सह अच्छा। आवां सन्ति न कथं करणीयं पश्यतु प्रथमपुरुषे एकवारं लट्लकारः अस्ति अत्र आगच्छतु लङ्लकारे न तत् प्रथमपुरुष एकवचनं प्रथमपुरुष एकवचनं प्रथमपुरुषद्विवचनपुरुषद्विवचन वर्तमानकाल भूत्काल वर्तमानकाल् भूत्काल् एवं वदतु ते, ते, ते सन्ति न न भगिनी एकवारं पश्यतु भगिनी एकवारं प्रथमवा प्रथमवारं वदतु सः अस्ति तत्र आगच्छतु लङ् ले न तौ न लङ्लकारे आगच्छतु सः अस्ति सः आसीत् सः आसीत् अत्र पश्यतु लङ्लकारे अस्ति सः आसीत् उपरि गच्छतु तौ स्तः नौ न न तौ स्तः वर्तमानकाल् तौ आस्तां भूतकाल् अत्र उपरि पुनः एकवारम् ते सन्ति ते आसन् एवं वद ुड् जुड् जोड्कर् सः अस्ति सः तव तौ स्तः तौ आस्ताम् ते सन्ति ते आसन् uh. अग्रिमे uh. अग्रिमे uh. त्वम् असी त्वम् आसीः योग्यं तौ स्तः तौ स्तः युवां युयं युवां स्तः युवाम् आस्तम् वदतु त्वं स्तः न न युवां भगिनी युवां स्थ युवां स्थ युवां युवाम् अस्तम् युवां यूयं यूयं आस् आस्त आस्त अधुना उत्तमपूर् अहम् अस्मि अहम् अस्मि अहम् आसं करेक्ट् हा अहम् आवां स्मः आवाम् आवाम आस्व सम्यक् वयं स्मः वयम् आस्म उत्तमम् एवम् एकवारं तत् जयन्तीभगिनी अपि वदतु एकवारं वर्तमान्काल् भूत्काल् एवं वदतु हा लट्लकाररूपमपि वा आमां आम, लट्लकार लङ्लकार एवं गच्छतु प्रथमं वाक्यं लट्लकारे द्वितीयं वाक्यं लङ्लकारे बालः अस्ति बालौ स्तः बालाः सन्ति त्वम् अस्ति यु युवां स्तः यूयं स्त अहमस्मि आवां स्वः वयं स्मः कृष्णः आसीत् कृष्णौ आस्ताम् कृष् कृष्णाः आसन् त्वम् आस्मिः युवाम् आस्तं यूयम् आस्त अहम् आसम् अहम् आसम् आवाम् आस्व वयम् आस्म योग्यम् इति अस्ति अस् धातोः रूपाणि अधुना वयं पुस्तकं प्रति गच्छामः अस्माकम् अद्यदिनस्य पाठः अस्ति एकनिमेषम् अत्र उद्घाटय पश्यन्तु तत्र पाठः अस्ति किमकुर्वत सञ्जय कस्मिन् श्लोके अस्ति प्रतम प्रतम आ, प्रतमे प्रतमे किम कुर्वत सञ्जयः प्रथम अध्याये प्रथमश्लोके अस्ति भगिनी आम् प्रथमे अध्याये प्रथमे श्लोके तत किं कुर्वत सञ्जय पूर्णम् श्लोकम् वदति वा धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामखा पाण्डवाश्चैव किम् अकुर्वत सञ्जय सत्यं तस्य सन्धिविग्रहकर्ता किम् अकुर्वत इति भवति हा तत् अकुर्वत इति रूपमस्ति भूतकाल आत्मनेपदी लङ्लकार आत्मनेपदीरूपमस्ति क्रोध तु तत् आत्मनेपदीरूपाणि अपि अस्ति तस्य परस्मैपदीरूपाणि अपि अस्ति अत्र अस्ति आत्मनेपदीरूपाणि पश्यन्तु एषः श्लोकः अत्र अस्ति हा यथा भगिनी उक्तवती तथा धर्मप्रथमः श्लोकः तत्र धृतराष्ट्रस्य एकमेव श्लोकः धृतराष्ट्रस्य कृते धृतराष्ट्रौ वाच इति अस्ति तत्र धर्मक्षेत्रे कुरुक्षेत्रे धर्मक्षेत्रे इत्युक्ते धर्मक्षेत्र इति वेदकालतः तत् धर्मप्रधानक्षेत्र अद्य गीताजयन्तीसप्ताहस्य अथवा किञ्चित् प्रथमश्लोकस्य विषये वयं वदामः चर्चयामः तत् धर्मक्षेत्रे इत्युक्ते धर्मप्रधानक्षेत्रं धर्मक्षेत्रं तस्मिन् एव काले एतस्मिन् काले यत्र महावि महाभारतयुद्धम् अभवत् तस्मिन् एव काले तस्मिन् एव स्थाने वेदकालतः पठनं भवति तत्र अर्था धर्म परायणम् धर्मक्षेत्र धर्मक्षेत्रे तत्र अस्ति सप्तमी कुरुक्षेत्रे कुरुणाम् क्षेत्र कुरुणां क्षेत्र तत्र कुरुणां क्षेत्र इत्युक्ते ये सर्वे कुरुराज्ञः वंशजाः तेषाम् क्षेत्रः कुरुक्षेत्रः समवेताः समवेताः इत्युक्ते किम् तत्र जनाः समवेताः इत्युक्ते संयुक्ताः वा सम्मिलिताः गेदर् टुगेदर् इति युयुत्सवः युयुत्सवः इत्युक्ते योद्धुम् इच्छवः योद्धुकामाः युद्ध योद्धुकामः तेषां मनसि एका एव भावना का युद्धं करणीयम् अतः ते सर्वे योद्धुम् इच्छि इच्छुकाः युद्धकामाः सर्वे कुरुक्षेत्रे धर्मक्षेत्रे सम्मिलिताः अधुना पश्यतु धृतराष्ट्रस्य मनसि प्रश्नः का मामकाः पाण्डवाः च एव किमकुर्वत संजय, सञ्जयम् पृच्छति मामकाः पाण्डवाः अत्र एव द्वैतभावना अत्र एव द्वैतभावना द्वैतिभाव दृश्यते अत्र भेदभावना दृश्यते मदीयाः त्वदीयाः मामकाः तत्र मम शब्दस्य तत्र आदेशभूत्वा मामकाः इति रूपं मामकाः पाण्डवाः पण्डुपुत्रः पण्डु इत्युक्ते धृतराष्ट्रस्य बन्धुः एव परन्तु सः पृच्छति पाण्डवाः अन्यभेदभावनया पृच्छति मदीयाः त्वदीयाः हा किमकुर्वत किम् अकुर्वत सञ्जय किम् अकुर्वत सञ्जय किम अकुर्वत अकुर्वत इत्युक्ते यथा उक्तवती आत्मनेपदी कर्तरिलं प्रथमपुरुष बहुवचनान्तरूपम् किम् अकुर्वत सञ्जय अत्र योद्धुकामाः तत्र सर्वत्र तत्र सर्वे सम्मिलिताः धर्मक्षेत्रे धर्मक्षेत्रशब्दस्य अपि विशेषता पश्यन्तु सर्व पाण्डवाः धर्मार्थम् एवं युद्धं कुर्वन्ति इति खलु धर्मार्थमेव युद्धम् अधर्मिणः ये कौरवाः तेषाम् एव तेषां कृते एव युद्धस्य प्रसङ्गः अत्र अभवत् हा युद्धस्य प्रसङ्गं जातं तदा धर्मरक्षणार्थं धर्मरक्षणार्थं तत्र श्रीकृष्णः धर्मा धर्म, धर्म धर्मार्थम् एव तत्र युद्धं कृतम् इति मामकाः पाण्डवाः किमकुर्वत् सञ्जय अत्र किमकुर्वत् तत्र अकुर्वत आत्मनिपदिरूपम् आत्मनेपदीरूपं किमर्थम् अत्र उपयुज्यते कोऽपि चिन्तनं कृत्वा वदति वा, वा। किमर्थं क्रोधा तु आत्मनेपदी अपि अस्ति परस्मैपदी अपि अस्ति परन्तु तत्र आत्मनेपदीरूपं दृश्यते न तु परस्मैपदीरूपं तस्य कारणं किं भवितुमर्हति चिन्तनं कोऽपि परन्तु मै पीपल् इत्युक्ते तत्र हा सम्यक् यथा भवत्याः चिन्तनं तु सम्यक् कथमस्ति आत्मनेपदीरूपाणि तत्र एकं सूत्रमस्ति सूत्रस्य चायनेन अहं वक्तुम् इच्छामि तत्र आत्मनेपदी धातवः कदा भवति तत्र सूत्रमस्ति तत्र कर्तरि स्वरीतनीतकर्तरि कर्तृ कर्तृभिप्राये क्रियाफले इत्युक्ते तत्र क्रियायाः फलम् कर्तारं प्रति गच्छति तत्र आत्मनेपदीधातवः कदा भविष्यति आत्मनेपदीरूपाणि व्याकरणदृष्ट्या तत् वयं सर्वे वदामः स्वैतनेतकर्तृभिप्राये क्रियाफले परन्तु तस्य वट् इस् द हिडन् मीनिङ्ग् अत्र युद्धं करणीयं तत्तु निश्चयेन पाण्डवाः किं वदन्ति आस वदन्ति तत्र किं वदन्ति स्म धर्मार्थ धर्मरक्षणार्थं युद्धस्य आवश्यकता परन्तु कौरवाणां चिन्तनं किं कौरवाणां विचारः कः एतत्सर्वं मदीय एव अस्माकमेव पाण्डवानां किमपि तत् सः उक्तवान् खलु एकसूची मात्रं भूमिं न दद्मः इति जयन्ती भगिनी दुर्योधन उक्तवान् आसीत् खलु एकसूचिमात्रं भूमिं न दद्मः आम् आम् तदा एकसूचिमात्रं भूमिमपि न दद्मः वयम् इति सः उक्तवान् इत्युक्ते धर्मपरैः पाण्डवैः युद्धं कृतं धर्मार्थं युद्धं कृतं सूच्यः अग्रभागमपि न ददामि सुच्यः निडल् तस्य अग्रभागमपि न ददामि इति दुर्योधनः वदति तस्मात् कारणात् इत्युक्ते कारणं किमपि भवतु नाम परन्तु अत्र कर्तृ कर्तारं प्रति फलं गच्छति धर्मार्थं तादृशफलम् अधर्म तादृशफलम् अतः तत् आत्मनेपदीरूपस्य योजना इति मम चिन्तनम् हा तत्र व्याकरणदृष्ट्या व्याकरणे अपि तत् यदा यदा क्रियाया फलं कर्तारं प्रति गच्छति तदा आत्मनेपदीरूपम् अत्र कर्तारं प्रति एव गच्छति चिन्तयतु धर्मार्थं रक्ष धर्मरक्षणार्थं वा अधर्मरक्षणार्थं वा अधर्मपालनार्थं चिन्तयतु फलं स्वीकरोतु गीतायाः मूलतः तत्त्वज्ञानं किमस्ति तत्त्वज्ञानम् एवमस्ति कर्मस्य फलम् कर्मणः फलम् क्षम्यताम् कर्मणः फलम् कर्मफलम् स्वीकरोतु किमपि भवतु नाम तत्र अतः तत्र किमकुर्वत सञ्जय इति धर्मक्षेत्रे कुरुक्षेत्रे धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्समा मामकावः पाण्डवाः च किम् हे सञ्जय हे सञ्जय मत्पुत्राः पाण्डुपुत्राः पाण्डु स्वस्य बन्धोः विषयक पाण्डुपुत्राः युद्धं कर्तुम् इच्छुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन् अधुना अकुर्वन् परस्मैपदी तत्र भाषान्तरस्य कृते अहं तत् परस्मैपद रूपं योजितवती आसम् अत्र तत् अकुर्वन् हे सञ्जय धृतराष्ट्रः सञ्जयम् अपृच्छत् इति प्रथमे अध्याये प्रथमे श्लोके अस्तु अधुना गच्छतु पुस्तकं प्रति कोऽपि वक्तुमिच्छति वा श्लोकस्य विषये वक्तुमिच्छति चेत् कृपया वदतु श्लोकस्य विषये कस्यापि चिन्तनमस्ति चेत् वक्तुमिच्छति वा धर्मक्षेत्रे इत्युक्ते इतोपि एक अर्थं भवति भगिनी आचार्या आचार्याः उक्तवन्तः धर्मं स्थापितं क्षेत्रम् अतः धर्मक्षेत्रः mm. इति योग्यं बहु सम्यक् धर्मस्थापनार्थम् अत्र धर्मस्य धर्मस्य विजयः तत्र अपेक्षितम् अतः तत्र धर्मक्षेत्रं सत्यं योग्यं सम्यक् सम्यक् अस्ति धन्यवादः आचार्यमुखे न श्रुतवती अतः अहम् इदानीं कृतवती योग्यं प्रथमः एव तत्र प्रथमः शब्दः खलु धर्मक्षेत्रे इति सत्यम् आं भगिनी हरि ओं भगिनी योगानन्दाजि हि हास् रिटर्न् इन् डिफ्रेण्ट् वे भगिनी हि हेस् गिवेन् डिफ्रेण्ट् एस्पेक्ट् इट्स् हि धर्मक्षेत्रे ैड्डवास् सत्यं सत्यम् अस्माकं शरीरस्य चिन्तनं तथैव आत्मा इति सत्यम बहु सो एक्लोक स्वीकृत अभी तथा बह तचारा तथा एक श्लोक अयनस्न्मने न भवेटेम सत्य अस्तु तस्य कारणमपि तत् वाक्यम् एव वाक्यता वाक्यता वाक्य वाक्यतः उत्पन्नः इति अपि आचार्यः वदन्ति बेनि सः उक्तवान् खलु मामकाः पाण्डवाः तत्र एव विवाहः भवन् भवति खलु युद्धस्य उत्पन्नः अपि सम्भवति इति तत्र द्वै द्वैभिभावः अस्ति भेदभावनया तत्र सः वदति सत्यं सत्यम् एकम् एव तत्र धृतराष्ट्रकृते धृतराष्ट्रस्य कृते, कृते पश्यन्तु एकः एव श्लोकः भगवद्गीतायाम् एकः श्लोकः तदपि आरम्भे एव दत्तमस्ति तत्र एकः श्लोकः आरम्भे किमर्थं तत् सः एव अनर्थकारणात् तस्य उपरि एव दोषः अस्ति खलु सूत्रराष्ट्रस्य उपरि एव ज्येष्ठानाम् आचरणं कथं भवेत् एतादृश एतादृशम् आचरणं यदा भवेत् चेत् तत्र युद्धं तु भवति एव युद्धं तु भवितुम् अर्हति इति तदपि कृष्णः भगवद्गीतायाम् एव उक्तवान् खलु यत् आचरति श्रेष्ठः तत् इतोपि जनः अनुसरन्ति चर्चा सर्वेषां धन्यवादाः सदैव क्लेशमस्ति अस्ति ेस् इट् हेपन्स् पूर्वस्कृतिं स्वीकृत्य अपि बहुवारम् अस्माकं चिन्तनं भवति ओ पूर्वे एतत् अभवत् एषा तु मम एवं सर्वं भूतकाले यावत् घटनान् वयं स्मरामः तावत् अस्माकं वर्तमानकाले आचरणं तादृशमेव भवति खलु बहुवारं बन्द्वयं तु गच्छति एव एवं करोमि वा न करोमि टु बि ओर् नाट् टु बि इति सत्यं अस्तु अधुना वीणा वीणा भगिनी वक्तुं शक्नोति वा पठतु आरम्भं किमकुर्वत् सञ्जय उच्चैः पठत जानीत भूतकालः अस्धातुः एषः अर्जुनः अस्ति hmm. अज्ञातवासे एषः बृहन्नला आसीत् ah, बृहन्नला का अर्जुनस्य रूपः हिडन् फाम् आम् विराटपर्वणि अज्ञातवासे बृहन्नला सा नृत्यनिपुणा इति तत्रृत्यं नृत्यं पाठितवती सा अध्यापिका तत्र उत्तरा इति अस्ति राजकन्या तस्याः कृते तत् इति नृत्यनिपुणस्त्री तत्र अध्यापिका नृत्यनिपुण सत्यम् अग्रिमे एषा द्रौपदी अस्ति Hmm. अज्ञातवासे एषा सैरन्ध्री आसीत् आसीत् सैरन्ध्री इत्युक्ते सा किं कार्यं कृतवती तत्र विराट इति राणेः महा महाराणेः सखी तत्र केशसंस्कारं वा मुखलेपनमेव ब्यूटिशियन् ब्यूटिशियन् ब्यूटिशियन् आमामां ड्रेसिङ्ग् अनन्तरं हेर् स्टैल् एण्ड् आल् केश केशसंस्कारान् केशसंस्कारान् कृतवती अनन्तरं मुखलेपनम् एवं सर्वं तत् वेशभूषाविषयः अपि तदपि आसीत् अस्तु अस्तु अग्रिमे पितरा सह युधिष्ठिरः अज्ञातवासे अज्ञातवासे यशः कङ्कः आसीत् कङ्कः अतः कङ्करूपेण सः किं कृतवान् कस्य समीपे आसीत् कङ्क इत्युक्ते सः कङ्क इति नाम्ना तत्र राद्यः समीपे तत्र सः कङ्क इति नाम्ना तत्र द्रू द्यूतक्रीडायां प्रवीणः सः अतः तत्र विराट राजन् विराट तस्य आमां मन्त्रीरूपेण सत्यं सत्यं मन्त्रीरूपेण सः कार्यं कृतवान् तत्र इत्युक्ते कङ्कः इति मन्त्री वा द्यूतक्रीडायां प्रवीणः सः इति जु... ओके द्यूतक्रीडायां ओके ओके अस्तु भगिनी भीमः अज्ञातवासे एषः वल्लवः आसीत् वल्लवः इत्युक्ते इति वल्ल पाककला निपुणः आमां पाककलायां निपुणः पाककला निपुण सत्यं तत्र अहमेकं सन्दर्भेण वदामि तत् अहम् इदानीं न स्मरामि कुत्रचित् अहं पठितवती अन्यकोपि जानाति चेत् वदन्तु आ, वदतु तत् कथमस्ति तत् भवन्तः सर्वे जानन्ति वा तत श्रीखण्ड इति एकः पदार्थ तत्र जानाति वा श्रीखण्डं भीमस्य एव सा पाककृति इति जनाः वदन्ति ओरिजिनलि परन्त, परन्त भीमपाप्तः परन्तु परन्तु एतत्तु अतीव सरलः रेसिपि भगिनि परन्तु भीम समय वयम न जानी न तस्मिन् कापि विशेषता तत्र आसीत् वा न वयं न जानीमः अतः तत् that original created gods by beam ety ah I know. okay uh -huh. no no But again, see, he was such a, no no he was such a, um, a proficient uh, cook uh, um. i'm surprised he, he he he could only make such a simple recipe anya she can the copyright goes to bima ah am तत्र uh, अन्यानि <Sanplayan> पदार्थानि वयं न जानीमः खलु परन्तु तेषां पदार्थानि पदार्थानि लुप्तानि अपि अधुना न जानीमः अस्तु भगिनि नकुलः अस्तु नकुलः अज्ञातवासे एषः ग्रन्थिकः आसीत् ग्रन्थिकः इत्युक्ते ग्रन्थां पठितुं वा अत्र सः अश्वानाम् अधिकारी तथैव आयुर्वेद ज्ञाता इति अश्वानामपि अधिकारी आसीत् आयुर्वेदज्ञाता तत् अश्विनिकुमार् अश्विनिकुमार् तत् तथैव तद् आयुर्वेदचार्य इति इति आयुर्वेद अश्व ओके अत्र एकं स्मरामि अश्वः अश्वः शब्दस्य व्युत्पत्तिः कोऽपि जानति वा अश्वः अस्ति श्वः श्वः इत्युक्ते टुमोरो अश्वः येषां ते इत्युक्ते युद्धे तत्र अश्वाः युद्धे जीवनलालसया ते न कार्यं कुर्वन्ति खलु श्वः किं अहं जीवामि वा न जीवामि इति चिन्तनं तेषां न आसन् अतः तथैव ते कार्यं कृतवन्तः ते अश्वः इति प्रश्नम् पठितवती तत् एवम् अस्तु हा सहदेव सहदेवस्य विषये अन्तिमं वाक्यं पठतु सहदेवः सहदेवः अज्ञातवासे एषः तन्तिपासः आसीत् तन्तिपालः आसीत् तन्तिपालः इत्युक्ते पोस्ट् मेन् गोशाला तन्तिपालः गोशालायां गोशा तत्र सः कार्यं कृतवान् सः देवं तन्तिपाल परन्तु परन्तु तन्तिपालः इत्युक्ते कथं जानीमः तत्र अहं मन्ये तत्र गोशालायां सर्वेषां ये ये गौविषयकः वा तत्र गोपालनं कृत्वा तत्र दुग्ध तत्र एवं तेषां इतरत्र भ्रमण न इत्युक्ते गोशालानां तत्र uh, तंती तन्ती इत्युक्ते तत्र uh, तेषां पालनस्य कृते सः यत्किमपि करोति परन्तु oh. यथाविषयकः अस्तु किञ्चित् दृष्ट्वा वदामि तन्ती इत्युक्ते किम् अवश्यं अस्तु भगिनि डाक्टर् वेटनरि डाक्टर् इदानीं अस्तु अस्तु पश्यामः अस् धातोः रूपाणि सन्ति तत्तु वयं जानीमः सर्वे हा अस्तु हा अधुना तत् किञ्चित् अग्रे गच्छामः एकम् अनन्तरं कथाया आवश्यक हा एतत् हा धन्यवादः राधा राधा भगिनी भवती पठति वा आं भगिनि यतो उदाहरणं रिक्तस्थानानि पूरयत एकवचनं द्विवचनं बहुवचनं प्रथम पुल्लिङ्ग सः वाक्पटु आसीत् तौ वाक्पटु आस्ताम् ते वाक्पटवः आसन, त्वं वाक्पटुमेकमेकमे तत्र पश्यन्तु वाक्पटु ह्रस्व वाक्पटु दीर्घ तकार दीर्घ वाक्पटवः यथा भानु भानू भानवः एव वदतु त्वं वाक्पटु आसीः युवां वाक् युवां वाक्पटौ और... वाक्पटु युवां वाक्पटौ वाक वाक ओके युवां वाक्पटु आस्तं यूयं वाक्पटवः अहं वाक्पटु आसम् आवाम वाक्पटु आस्व वयं वाक्पटवः आस्म योग्यम् तत्र आसीत् आस्ताम् आसन् आसीः आस्त आस्तम् आस्त आसम् आस्त, आस्त, आस्त, आस्त। इति अस् धातोः कृते वयं पठितवन्तः धन्यवादः अधुना कथां प्रति गच्छामः अद्यदिनस्य कथा अपि तथैव कृष्ण अर्जुनस्य कथा अन्तिमतः गीताभ्यासे एव नयति एषा कथा आरम्भम् कुर्मः अस्तु जयन्ति भगिनी पठति वा आम् मिनी पठामि पांडव पाण्डव पाण्डवगौरवयोः गा, युद्धम् प्रवर्तमानम् आसीत रणरङ्गे आसीत अर्जुनः प्रतिपक्षे आसीत् कर्णः तयोः युद्धं आरब्धम् तयोः युद्धं द्रष्टुम् आकाशे देवाः पङ्क्तिशः स्थितवन्तः अर्जुनस्य बानेन आहतः कर्णस्य रतः कम्पमानः सन् त्रिंशत् त्रिंशदधिकत्रिंशदधिक अधिकपादपरिमितं पृष्ठतः आसरत् ये पश्यन्तः आसन् ते सर्वे अर्जुनस्य शौर्य शौर्यं दृष्ट्वा मूकविस्मिताः अभवन् पर्याप्तम् okay. अधुना वदतु पाण्डवकौरवः मध्ये युद्धम् आरब्धं प्र प्रवर्तमानम् आरब्धं भवति रणरजे युद्ध युद्ध युद्धक्षेत्रे अर्जुनः आसीत् प्रतिपक्षे आपोस् ऐ मीन् प्रतिपक्षे कर्णः आसीत् तयोः युद्धम् आरब्धम् पाण्डवकौरवयोः मध्ये युद्धम् आरब्धम् तयोः युद्धं द्रष्टुम् आकाशे देवाः पङ्क्तिशः स्थितवन्तः देवमार्गे आकाशमार्गे देवाः स्थितवन्तः अर्जुनस्य धानेन आहाशः इत्युक्ते पङ्क्तिशः इत्युक्ते रोड् बेणि आम् तत्र इनक्यू इति लैन् मध्ये इति सर्वे भविष्यति इति चिन्तने अ अर्जुनस्य बानेन आहतः कर्णस्य रथः कम्पमानः सन् अर्जुन अर्जुन अर्जुनस्य बानेन कृश कर्णस्य रथः कम्पमानः भवन्ति त्रि त्रिशतकम् त्रिशत अधिकं पादपरिमितं पृष्ठतः आसरत् त्रिशतकं त्रि हण्ड्रेड् अधिक दूरं पृष्ठतः बेट् बेट् आसरत् ये पश्यन्तः आसन् ते सर्वे अर्जुनस्य शौर्यं दृष्ट्वा मूकविस्मिताः अभवन् सर्वे जनाः ये ये पश्यन्ति ते सर्वे अर्जुनस्य शौर्यं वीरं सर्वं दृष्ट्वा विस्मिताः भवन्ति मूकविस्मिताः भवन्ति मूकविस्मिताः इत्युक्ते कः भावः अत्र मूकविस्मिता <laughs> इत्युक्ते बहु आश्चर्यचकितः मौनम् मौन स्पीच्लेस् इति किमपि वक्तु मौनमपि इत्युक्ते प्रशंसायाः अपि तत्र शब्दानां तत्र न्यूनता भासते एतादृशं कार्यं एतादृशं शौर्यं चकितः ये पश्यन्तः आसन् अत्र पश्यन्तु सर्वेषु स्थिरस्य आसीत् प्रथमपुरुष एकवचन अनन्तरं प्रथमपुरुष बहुवचन हा अभवन् अपि किमस्ति प्रथमपुरुष बहुवचनम् अभवत् इति सर्वम् अस्ति तत्र आरब्धं प्रतिपक्षे आसीत् कर्णः अधुना किञ्चित् स्वशब्दैः वदतु अर्जुनः कर कर्णः द्वयोः मध्ये वैरभावना कीदृशी आसीत् द्वयोः मध्ये समानवीर्यं शौर्यम् अस्ति किन्तु अर्जुनस्य कृते अर्जुनस्य समीपे धर्मम् अस्ति परन्तु कर्णस्य समीपे असूया एव अस्ति बेनि मूलतः बाल्यतः यदा द्रोणाचार्यसमीपं यदा कर्णः तत्र गतवान् आसीत् तदापि तस्य अहङ्कार तत्र मनसि तत् अर्जुनस्य सह एव अर्जुनेन सह अहं युद्धं करोमि इति तत् असूया असूया ग्रन्थः सः अतः असूया ग्रन्थः तस्मात् कारणात् सः अधर्म आचरणं कृतवान् आसीत् दुर्योधनस्य पक्ष तत् स्वीकृतवान् अनन्तरं तत् कृष्ण कृष्णात् सः उपदेशं स्वीकृतवान् आसीत् तर्हि तर्हि तस्य मनि मन मनपरिवर्तनं तत् मतपरिवर्तनं न अभवत् अधर्मिणः सः सः गतवान् योग्य सभा मध्ये सभामध्ये अपि सः एव धूपं कृतवान् भगिनी सः एव ्रौपद्याः विषये दोषितवान् दोषितवान् अपि सः तस् तस्मिन् समये समये कटुवचनानि सः एव उक्तवान् आसीत् अशोभनीया भाषा अशोभनीया भाषा तस्मिन् समये योग्यं सत्यं सत्यं धन्यवादः उत्तमं धन्यवादः धन्यवादः अधुना अग्रिमे रामा भगिनी पठति वा कर्णस्य शौर्यमपि कर्णस्य शौर्यम् अपि अर्जुनस्य शौर्यात् न्यूनं तु न आसीत् कर्णस्य बाणस्य आदाते आदातेन कम्पमानः एकविषयः कम्पमानः अर्जुनस्य रथः त्रिचतुर् त्रिचतुरपादपरिमितं पृष्ठतः आ, आ आचरत् तदा कृष्णः एव कर्णस्य शौर्यं श्लाघितवान् परन्तु hmm. कदाचित् अपि कृष्णेन अर्जुनस्य शौर्यं न श्लाघितम् एतत् अर्जुने अर्जुनेन अपि अपि लक्षितम् आसीत् वदतु स्वशब्दैः किम् अभवत् तत् कर्णस्य शौर्यम् अपि अर्जुनस्य शौर्यात् न्यूनं तु न आसीत् नाट् तत्र समान सम समान तुल्यबलं तुल्यबलम् अस्ति न्यूनम् इत्युक्ते तत्र न्यूनता नास्ति सः कर्णस्य बाणस्य आधारेण कम्पमानः कर्ण इवन् कर्णबाणं अर्जुनस्य hmm. hmm. रत् रथम् hmm. त्रि त्रि त्रिचतुर्पादपरिमितं पृष्ठतः आचरति अर्जुन hmm. अर्जुनस्य रथम् अपि पृष्ठतः गत गतवान् अत्र त्रिचतुर् पादपरिमितं त्रिचतुर इत्युक्ते त्रि फोर् तत्र द्वित्रा द्वित्रा इति अस्ति चेत् टु त्रि त्रिचतुर् त्रि फोर् अधुना पश्यन्तु तत्र परिमाणं पश्यन्तु अर्जुनस्य बाणेन कर्णस्य रथः त्रिशतधिकं परिमितं पादं प अत्र त्रिचतुरपादपरिमितं तत्र भिन्नं परिमाणं तत्र न्यूनता कुत्र दृश्यते अत्र त्रिचतुरपादपरिमितं तस्य न्यून न्यूनता अत्र दृश्यते पृष्ठतः असरत् असरत् असरत् इति धातोः कः कोऽपि जानति वा भूतकाले सृधातु स्रुसृ सृगतौ स्रुसरति तत्र स्रु तस्य भूत्वा गमनक्रिया गमनक्रिया सूचयति खलु गमनक्रिया सूचयति सत्यं योक्यं तदा कृष्णः एव कर्णस्य शौर्यं श्लाघितवान् श्लाघिते किं ततः परमाप्ति कृष्ण कृष्ण एव परन्तु कदाचित् कृष्णेन अर्जुनस्य शौर्यं न, न श्लाघितम् अर्जुनस्य शौर्यं न इत्युक्ते कृष्णः कृष्णः कर्णस्य प्रशंसां कृतवान् परन्तु अर्जुनस्य प्रशंसां न कृतवान् यतोहि तत्र कर्णस्य रथ तत्र कम्पमानत्रिशतधिकं पादं परिमितम् इति अर्जुनस्य तु तत्र न्यूनं तत्र तुलन, तुलना तुलना यदा वयं कुर्मः तदा त्रिचतुर्पादमिति चेत् न्यूनता दर्शय दर्शयति तत्र न्यूनता दृश्यते तत्र परन्तु कृष्णः कर्णं श्लाघितवान् कर्णस्य प्रशंसां कृत्वा इत्युक्ते न अर्जुन इत्युक्ते अर्जुन अर्जुन अर्जुनपक्षं कृष्ण अस्ति अत्रैव एतत् अभवत् एतत् अर्जुनेन अपि लक्षितम् आसीत् इत्युक्ते एतत् एतत अर्जुनेन अर्जुनेन लक्षितम् इत्युक्ते हि रियलैज्ड् इति सः ज्ञातवान् मम मम प्रशंसां तु न अभवत् मम प्रशंसा तु न अभवत् आम् परन्तु कृष्णस्य श्ला कर्णस्य क्ला श्लाघनमत्र जातं न मम इति लक्षितम् आसन् यस् योग्यम् हा धन्यवाद रमा भगिनी अग्रिमे वीणा भगिनी पठति वा दीनान्ते तथा आरभ्य हा भगिनी दिनान्ते विच्छायमुखः अर्जुनः कृष्णम् अपृच्छत् कृष्ण मम बाणेन आहतः कर्णस्य रथः कम्पमानः कम्पमानः पक्षी इव सुदूरं पृष्ठतः असरत अनेकवारम् एवं जातं किन्तु भवता मम कौशल्यस्य श्लाघनं कदाचिदपि कृतं कर्णेन प्रहृतः मम रथः किञ्चिदेव यदा व्यचलत तदा भवता भृशं तस्य शौर्यं श्लाघित श्लाघितं किमर्थम् एवम् इति हा वदतु a... <laughs> um, विच्छायमुखः uh, विच्छायमुखः इत्युक्ते किं भगिनि uh, विच्छायमुखः इत्युक्ते तत्र विश् टु गेट् अप्रिशियेटेड् अन्तर्यामि सः इच्छन् आसीत् मम अपि प्रशंसाम् अहं श्रोतुमिच्छामि मम अपि शौर्यस्य प्रस प्रशंसा भवेत् इति अस्तु भगिनी अस्तु भगिनि हा अर्जुनः कृष्णम् अपृच्छत् दिनान्ते तदा दिनस्य अन्ते कृष्णम् अपृच्छत् मम बाणेन आहतः कर्णस्य रथः कम्पमानः पक्षी एव सुन्दरः सुदूरं पृष्ठतः असरत् पक्षी इव सुदूरं पृष्ठतः पक्षी एव इत्युक्ते पक्षी पक्षी इत्युक्ते बर्ड् खगः सुदूरं पृष्ठतः असरत् रोलिङ्ग् दट् मीन्स् मोड् एस् मच् एस् अर्ड् वा भगिनी आम् अम्बमानः इवर्ड् लैक् बर्ड् इत्युक्ते तत्र वेगेन सह वेगेन रथः पृष्ठतः गतवान् आसीत् अस्तु भगिनि हा ओके पक्षी एव दूरम् असरत् अनेकवारम् एवं जातं सः अनेकवारं कृतवान् अनेकवारम् अर्जुनस्य सौर्य शौर्यस्य प्रदर्शनम् एतादृशं प्रदर्शनम् अभवत् किन्तु भवता मम कौशल्यस्य श्लाघनं न कदाचिदपि कृतं कृष्णः कदाचिदपि श्लाघनम् अकुर्वन् न अकरोत् न अकरोत् इति न एकवारमपि श्लाघनं प्रशंसां न कृतवान् भवान् एकवारम् अपि न कर्णस्य प्रशंसा तु भवान् कृतवान् Mm -hmm. भवता mm -hmm. mm -hmm. mm -hmm. मम कौशल्यस्य श्लाघनं न कदाचिदपि एकवारमपि अनेकवारं मम शौरस्य शौर्यस्य प्रदर्शनं जातम् परन्तु भवान् एकवारमपि मम श्लाघनं न कृतवान् अस्तु भगिनी अग्रिमे सा पृच्छति कर्णेन कर्णेन प्रहृतः मम रथः किञ्चित् एव यदा व्यचलत् तदा भव भवता भृशं तस्य शौर्यं श्लाघितम् हा कर्णस्य बाणेन अर्जुनस्य रथः किञ्चित् एव व्यचलत् किञ्चिदेव तत्र परिमाणं दत्तमस्ति त्रिचतुर् इति किञ्चित् एव व्यचलत् किञ्चिदेव परन्तु सदा भवता वृशम् इत्युक्ते सुयोग्यानि शब्दानि उपयुज्य तत्र भृशं तस्य शौर्यस्य प्रशंसां कृतवान् शौर्यं श्लाघितम् किमर्थमेवम् इति सः पृच्छति दी, दीनान्ते एषः प्रश्नः अधुना पश्यन्तु सर्वे अत्र कृष्ण अर्जुन द्वयोः मध्ये तत्र एक एकं शब्दं तत्र स्मरामि अत्र एकः शब्दस्य तत्र सत्यभक्ति इति भक्ति भक्ति तु आसीत् भक्तिभावना तत्र आसीत् परन्तु सख्य सखी सखी सदृश तत्र किञ्चित् मित्रभावना परन्तु मित्रभावनायाः उपरि सखी इति सखीभावना अस्तु भगिनी तत्र अस्तु सख्यभक्ति इति भगिनि मम एकः प्रश्नः अस्ति अत्र हा न... एतद uh, um, hmm? hmm. uh, uh, वार गीता एतद् भगवद्गीता आम आमां गीता तत्र प्रथमे दिने yeah. uh, यदा uh -huh. सर्वे हा आसन तदा एव तत्र एक कुत्र अहं पठितवती तत् एकः तत्र तज्ज्ञ तज्ञव्यक्ति तत्र ी महोदय तेन तत्र उक्तमस्ति भगिनी अहं uh स्मरामि -huh. तत्र uh -huh. युनो समयस्य तत्र स्थगनम् एव अभयत् अभवत् समयस्य oh, okay. साक्षात् समयस्य स्थगनम् इत्युक्ते uh -huh. तत्र महाभारतसर्वे योद्धाराः तत्र सन्ति परन्तु uh -huh. अन्य कोऽपि अन्य कोऽपि स्मर्तुं वा द्रष्टुं न शक्नोति केवलं तत्र कृष्णः उपदेशं करोति अर्जुनः शृणोति एतावती स्थितिः तत्र आसीत् तत्र समयस्य एव स्थगनम् अत्र अहम् एकम् उदाहरणार्थं वदामि तत्र हिन्दीभाषायां तत्र एकं गीतमस्ति समयकाये पल्थं गया है इति एबल् टु हियर्गिकोट् इोरम् अस्तु लर्निङ्ग् सो मच फ्रोम् भगवद्गीता अर्जुना आँ आँ परन्तु परन्तु अतः एता दु, एतादृशाणां कथानां योजना किमर्थम् अस्माकं बोधनार्थम् <laughs> अस्माकम् <अच्ची बोधनार्थं। laughs> अस्माकं बालबुद्धिः अस्ति खलु अस्माकं बालबुद्धेः अवगमनार्थम् एतादृशी कथा एता <laughs> तत् अस् ते सर्वे तु तज्ज्ञजनाः ते सर्वे जानन्ति अर्जुनः अपि जानन्ति परन्तु अस्माकं बोधनार्थम् एवं सर्वं हा आ, आ, तत्र भगिनि तत्र भगवद्गीतायामपि पश्यतु तत्र द्वितीय अध्याये जयन्ती भगिनी अहं यत् वदामि तत् सत्यं वा वदतु भवती तद् द्वितीय अध्याये सर्वम् उक्तमस्ति हा लश्वरता तत्र शाश्वत् किमपि नास्ति एवं सर्वम् द्वितीय अध्याये तत्र द्वितीय अध्याये परन्तु भवन्ति आम, आम् आम् परन्तु पुनः पुनः तन्त्र अनन्तरं भक्तियोग अनन्तरं विश्वरूपदर्शनम् एतत् सर्वं पूर्वमेव उक्तमस्ति द्वितीयाध्यायसीटि अस्ति पुनः तस्य पुनः अपि बेनि त एकादश अध्याय अपरमपि पुनः एकवारं सर्वं भगवान् श्रीकृष्णः उक्तवान् अनमें विस्मृतवा अर्जुन पुनर एक अणुगीता उतवा <laughs> आं अनुगीता आसी सत्यम सत्यम <laughs> योग्यं तहुवार बहुवार हाँ यहां अस्मकं यथा अ रूपा वह पढ़ परु अस्कंस् स्मरण कदा कदा न आगछति खलुट न आगछति तथैव पुनः पुनः अतः परन्तु सत्यमेवं तदापि सः प्रशंसायाः विषये पृच्छति अस्तु तस्य शौरं अस्तु धन्यवादः भगिनी धन्यवादः भगिनी अग्रिमे अग्रिमे पठति अधुना तत् वीणा भगिनी पठति वा अहं पठितवती भगिनी पठितव राधा राधा भगिनी अन्य अन्या, अन्या कोऽपि भगिनी अस्ति वा तत्र गीताञ्जलिभगिनी अच्छा गीताञ्जलिभगिनी पठति वा पठि पठितुं शक्नोति वा हा पठतु कृपया हा पठतु तदा स्मयमानः कृष्णः अवदत् अर्जुनं तव रथस्य ऊर्ध्वभागे हनुमान् अस्ति सः तं भागं रक्षति अग्रभागः तव सारथीना मया रक्ष्यते शेषनागेन तव रथस्य चक्राणि रक्षयन्ते एवम् एते अपि कर्णस्य बाणेन अहतः तव रथः न केवलं कम्पितः अपि तु त्रिचतुर्पादपरिमि परिमितं पृष्ठतः असरत् अपि कर्णस्य रथस्य रक्षकः तु सः एकः एव तथापि महत् सौ शौर्यं दर्शन्त दर्शतं तेन दर्शितं तेन किं दत्तमस्ति अत्र वदतु कृष्ण अवदत् वित् स्मैल् हि सैड् अर्जुन तव रथस्य ऊर्ध्वभागे बेक् सैड् न हनुमान् नास्ति फ्रेण्ड् ऐ एम् देर् टु कण्ट्रोल् अग्रभागे कृष्ण एव रक्षितं कर्तु सारथिरूपेण कृष्णः एव करोति शेषन रथस्य चक्रं रक्षयन्ति चक्राणि रक्षयन्ति एवं आफ्टर् एवम् इति अपि कर्णस्य बानेन आहतः तस्य रथं त्रि त्रिचतुर्भापर्यन्तं कम्पितः तिष्ठति ततः तिष्ठति त तदेव अहं क रथस्य Uh, एक एव रक्षणं करोति रैट् भगिनी कर्णस्य रथस्य रक्षकः तु सः एकः एव एकः एव तत्रापि तस्य शौर्यदर्शनं तेन तथापि महत् हि शोयिङ्ग् लार्ड् आफ् शौर्य आं शौर्यम् अत्र पश्यन्तु कर्णस्य सारथि का uh, हा तत्र शल्य इति शल्य इत्युक्ते तत्र नकुल सहद, सहदेव द्वयोः मातुलः मातुलः हा, अतः तत्र सह वारं वारकटुवचनानि उक्तवान् आसीत् कर्णस्य कृते वारं वार सः कटुवचनानि उक्तवान् आसीत् अतः तत्र तस्य रक्षकः सः एव, कह एव। तत्र अर्जुनस्य कृते ऊर्ध्वभागे हनुमान् अग्रभागे कृष्णशक्ति साक्षात् परमशक्ति शेषनागः तत्र चक्राणि तत्र चक्राणि धृत्वा तत्र शेषनागः तर्हि रथः न केवलकम्पितः केवलम् कम्पनम् न त्रिशतुपादपरिमितम् पृष्ठतः गमनम् रथस्य परन्तु कर्णस्य कृते अन्यकोऽपि रक्षकः नः सः एव एकः एव रक्षकः अतः तत् तस्य शौर्यम् महत् महत् महत् शौर्यम् इति अर्जुनः अर्जुनम् वदति कृष्णः अग्रिमेऽपि पठतु भगिनी पश्चात् तत् पश्चात् पश्चात् अर्जुनः रथात् अवतरणम् कृतवान् अर्जुनस्य अवतरणस्य अनन्तरम् कृष्णः रथतः अवती अवतीर्णः यदा कृष्णः अधः आगतवान् तदा रथः भस्मीभूतः किम् अभवत् तत्र अवतरणं मीन्स् रथात् अवतरणम् अर्जुन किम् इन् तद् रथायसर् भगिनी अवतरणं तत्र किमस्ति पश्यन्तु रथात् तत्र रथात् देवात् पञ्चमी विभक्त्यस्य ग्रामात् रामात् तत्सर्वं पञ्चमी एकवचनम् अवतरणम् इत्युक्ते गेटिङ्ग् डौन् आरोहणम् अवतरणम् आरोहणम् इत्युक्ते टु क्लैन् टु गो अप् अवतरणम् इत्युक्ते गेटिङ्ग् डौन् अवतरणं कृतवान् त्रु त्रुतृ इति धातु हा अवैति उपसर्ग हा रथात् अवतरणं फ्रोम् रथ् इति पञ्चमी फ्राम् इति भावः हा आकाशात् पतितं तोयं वृक्षात् पर्णं पतति वृक्षात् फ्रोम् So, रथात् अवतरणम् अर्जुनः कृतवान् अर्जुनस्य अवतः अग्रिमे अर्जुनस्य कदा अर्जुनस्य अवतरणस्य अनन्तरम् तस्मिन् एव समयेन प्रथमतः अर्जुनः अवतरणं कृतवान् रथात् अनन्तरम् अर्जुनस्य अवतरणानन्तरं कृष्णः अपि रथात् अवतरणम् कृतवान् हा इति अत्र पश्यन्तु रथात् रथतः रथतः इत्युक्ते तत्र तः प्रत्यये अपि पञ्चम्यार्थे इति अस्ति हा तत्र रथात् इति पञ्चमीदर्शकशब्दः तथैव तः रथ तः तः प्रत्ययस्य योजना कुर्मः तदापि पञ्चमी एव भावः अस्ति कृष्णः रथतः अवतीर्णः कृष्णः अवतीर्णः रथतः अग्रिमे किमभवत् भगिनी यदा यदा कृष्ण अधः अगव आगततान् तदा रथः भस्मी भूतः गाडौन् आफ्टर् हि गाट् डौन् फ्रम् द रथः कृष्ण रथ गाट् बन् भस्मि भूतः राइट? भस्मिभूति सर्वेषां संहारकशक्तीनां तारणहारः कः आसीत् दिगृशः तत्र अर्जुनः तु महान् धनुर्धारी तत्तु सत्यम् परन्तु ये ये योद्धारः तत्र बलशालिनः तेषां समीपे अपि संहारकशक्तीनाम् सञ्चयः आसीत् सर्वेषाम् शक्तीनां तारणहाररूपेण कृष्णः एव तत्र आसीत् अर्जुनस्य समीपे अतः तत्र यदा तत्र दुर्योधन तत् आसीत् खलु दुर्योधनः अपि गतवान् अनन्तरं तत्र अर्जुनः अपि गतवान् तत्र अहं सैन्यम् एव इच्छामि अहं भवन्तम् एव इच्छामि इति अर्जुनः वदति दुर्योधनस्य कृते सैन्यस्य एव चयनं तत्र कृष्णरूपी परमशक्ति परमशक्तेः चयनम् अर्जुनेन कृतम् अतः विजयं सः एव प्राप्तुवान् प्राप्तवान् इति तदा रथः वसुविधा अग्रिमे किम् अभवत् तत् पश्यामः पठामः का भगिनी पठति अधुना गीताञ्जलिभगिनी भवती एव पठतु अस्मिन् अस्ति राधा भगिनी हा क्षम्यतां राधा भगिनी अस्मिन् समये अस्मिन् समये कृष्णेन उक्तम् अर्जुन एतत् त्वया अवधीतं स्यात् तव रथः अविदितम् इत्युक्ते किम् अविदितम् तव रथः कर्णेन धंसितः आसीत् पूर्वमेव एतावत्पर्यन्तम् अहम् एव तस्य रक्षणं कुर्वन् आसम् इति अस्मिन् समये कृष्ण उक्तवान् अर्जुनः अवधितम् इस् त्वया अवधितम् अविदितम् इत्युक्ते तत्र विद् धातु विद् इत्युक्ते तु नो इति त्वया अविदितं स्यात् स्याट् इति अस्ति विधिलिङ्गरूप तत् विधिलिङ्गरूपमस्य स्यात् इत्युक्ते भवान् तु ज्ञातुम् अर्हति इति एतत् त्वया अविदितं स्यात् किं तस्य रथं ध्वंसमासीत् पूर्वमेवक्रमी आम् महाप्राथमिक तस्य रथं ध्वंसं कृतवान् परन् एतापर्यन्तम् अहं रथस्य रक्षणं कृतवान् तत्र भग्नता तु पूर्वम् एव रथस्य अभवत् परन्तु तत्र रथः तु भग्नः एव पूर्वमेव ध्वंसितः एव परन्तु एतावत्पर्यन्तम् अहं तस्य रथोपरि अहम् आरोहणं कृतवान् आसम् अतः तत्र रक्षणम् अहमेव कुर्वन् आसम् एतावत्पर्यन्तम् यथा मम अवतरणम् अभवत् तदा रथः तत्कारणं कृष्ण तस्य अर्जुनस्य अवतरणं पश्चात् अवतरणं कृतवान् आम् नो चेत् किं भवितुमर्हति यदा कृष्णस्य अवतरणं प्रथमम् अभवत् अभविष्यत् तदा विनाशः एव अर्जुनस्य विनाश एव आम् आम् अग्रिमे कदाचिदपि अहम् कृतवान् अहम् साधितवान् इति अहम् बाहव अहं भावः न प्रदर्शनीयः सर्वदा साधनाया साधनायाः साय कारणानि च भवन्ति अनेके गर्वम् अहम्भावं च त्यक्त्वा अस्माभिः कार्याणि करणीयानि तद्बोधवाक्यं किमस्ति पठतु कदाचिदपि कदाचिदपि अहम् अहंकार न कृतवान् अहं करोमि प्रदर्शयामि इति न अहम्भाव न करोमि सदा साधनीय साय सर्वे सर्वस्य सायकं करणीयम् अनेकस्य सायन साहाय्यं करणीयं परन्तु मम भाव मम अहङ्कार न प्रदर्शयामि गर्वं न प्रदर्शयामि सत्यं त्यक्त्वा सत्य। अहं त्यक्त्वा अधुना भगिनी तद् द्वितीयं वाक्यं पश्यतु सर्वदा Hmm? साधनाहायका अनेके hmm. अनेके यदा तत्र तदा एव साधना है अनेके सहायका मिल्वा तयत्ति यश्रा खु अहम अहम वादा चेत तर अहंकार अहंकार भावनायाव प्रदर्शन तरु साधना हायकाः सन्ति अनेकानि कारणानि सन्ति तदा एव यशप्राप्तिः भवति अहम्भावो न ममत्व मां दर्शयतु अन्तिमं वाक्यं गर्वम् गर्वम् अहम्भावं च त्यक्त्वा अस्माभिः कार्याणि करणीयानि अहम्भावेन न करणीयं कार्यं ते त्यक्त्वा सर्वकार्यं करणीयम् इति अस्माभिः कार्याणि करणीयानि अस्तु इति अस्ति निमित्तमात्रं निमित्तमात्रम् इत्युक्ते निमित्तानि तत्र बहूनि सन्ति निमित्तानि बहूनि सन्ति अस्माकं जीवने बहुवारं निमित्तानि सन्ति अतः तत्र अहं वाव् तत्र ओ एतत्सर्वं मया एव कृतं नो चेत् न भविष्यति एव इति भावः न भवेत् इति बहु सम्यक् अस्ति अद्य दिने अहं तत् विशेष तत्र गीता जयन्तिदिनस्य अस्माकम् तत तत तत अधुना तत् सप्ताहः प्रचलति खलु अतः तत् मया तत् चयनं कृतम् एतस्य अधुना वदन्तु सर्वे एकमेकं एकम कथायाः बोधयकः एवं सर्वं निमित्तमात्रं भव सव्यसाक्षीन् इति भगवान् श्रीकृष्णः उक्तवान् खलु hmm. एकादश अध्याये विश्वरूपं दर्शितवान् तत् hmm. पस्य सर्वे जनाः सर्वे देवाः सर्वे अचित् चित् सर्वं भगवतस्य अन्तः गतः दृष्टवान् hmm. खलु hmm. अर्जुनः तदा भगवान् उक्तवान् एतादृशपाण्डवाः गौर कौरवाः अपि मृत् मृत्य अन्तर्गत भवतः अहम् अहं प्रथमः अहं प्रथमः इति अन्तर्गतवन्तः सर्वं दृष्ट्वा अर्जुनः विस्मिताः तदा कृष्णः उक्तवान् अहम् आल्रे ऐ मीन् अहं मया कृतम् अस्ति त्वम् त्वं निमित्तमात्रं भव सभेषाची इति भगवान् कृष्णः उक्तवान् खलु एव चिन्तनम् अस्ति कर्ता अहम् इति मन्यते प्रकृतिसः प्रकृतिसहायेन भगवतस्य परब्रह्मस्य अनुग्रहेन सर्वं मिलित्वा एव एककार्यं कर्तुं शक्यते स्वयं किमपि कार्यं न कर्तुं शक्यते अहङ्कार अहङ्कारी आत्मा एव कर्ता अहम् अहम् इति मन्यते इति भगवान् श्रीकृष्णः उक्तवान् आम् अहङ्कारग्रस्तः न भवामः मोहग्रस्तः अहङ्कार तेन मूलतः किं भवति तेन तामसवृत्तेः जननं भवति मनसि तत् hmm. सात्विकीवृत्तिः इति न तामसे तामसवृत्तेः जननं मनसि हा एवं सर्वम् अहं कृ करु, करोमि अतः तत्र न नो चेत् अन्ये अन्ये अन्य, अन्य, अन्य अन्याञ्जनानां तत्र प्रयोजनमेव नास्ति ते सर्वं hmm. न सक्षमाः एव एतत् सर्वं मनसि एषा भावना यदा जनयति तदा तामसवृत्तेः आधिक्यं भवति तत् न भवेत् सर्वदा hmm. hmm. राजस सात्विक द्वो त्र बैलेंस वाला चेत अस् परुमसृत्ति सदा सर्वदा निषेध तस्मसवृत् सदा सर्वदा निषेध है योग्योग्यगी धन्यवाद अन्मा रा, भगिनी राधा भगिनी वीणा भगि वक्त पीतांजलिगिनी भगिनि स्वयमेव करोमि सर्वकार्यम् इति न सूचयति भगवान् भगवतः कृपा कदापि न भवति इति न अहं मान्ये भगिनी एतत् सर्वं भगवतः कृपया एव अहं प्राप्नुवती अहं प्राप्तवती प्राप्त भगवत्कृपया एव इति चिन्तनं भवेत् चेत् तत्र मनसि एक तृप्ति आगच्छति खलु तृप्ति इति भावना आगच्छति हा तत् महत्वपूर्ण इत्युक्ते तत्र वाट् एवर् एल् बि गेटिङ्ग् यत् सर्वं यत् मया प्राप्तम् अधुना अधुना अस्माकं समीपे किमस्ति संस्कृतभाषायाः अध्ययनं वयं सर्वे कुर्मः तत् भगवतः कृपया एव भगवतः कृपा अतः वयं सर्वे मिलित्वा अन्यान् जनानाम् अपि तत्र साहाय्य बहवः तत्र अस्ति संस्कृतभारतीजनाः सन्ति स्वरूप स्वरूप तस्मात् कारणात् एव अत्र वयं सर्वे सम्मिलिताः तदा सर्वेषां तत्र योजना अभवत् सर्वेषां तत्र अस्माकं कृते साहाय्यम् अभवत् अतः अहं प्राप्नोमि इति भावना भवति चेत् अहङ्कार नागच्छति एव सहकारभावना इति योग्यम् अन्यकोऽपि वक्तुम् इच्छति वा भगिनी अहं तेन विना तृणमपि न चलति भगिनी योग्यं योग्यं <laughs> बहु सम्यक् बहु सम्यक् बहु सम्यक् बहु सम्यक् सत्यं सत्यमेव योग्यं <laughs> बहु सम्यक् अस्तु अन्यकोपि वक्तुम् इच्छति वा अस्तु नास्ति चेत् वयं शान्तिमन्त्रेण समापयामः हा वीणा भगिनी भवती वदति वा शान्तिमन्त्रम् हा भगिनी पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः सर्वेषां गीता जयन्ती जयन्तीविषयकः शुभेच्छाः किं वदति जयन्ती भगिनी वदति वा बेनि गतवर्गस्य कथायाः शीर्षकः कः बेनि अहं विस्मृतवती गतवर्गस्य कथायाः कथ्यपः कथ्यपशकयोः कथा इति कथा तु ज्ञातं परन्तु तस्य शीर्षकः हेडिङ्ग् स्मृतवती अतः हेडिङ्ग् तदेव कच्छपः कच्छपशकयोः कथा इति अस्ति अस्तु भगिनि अस्तु अस्तु बेनि धन्यवाद भगिनि धन्यवादरा